श्रीमद्भागवतकथां महात्म्यं कुमारा उचहो मा चिन्तां कुरु देवरसे हरसचित्तमे समावह उपायः सुखसाध्योऽत्र वर्तते पर्व एव हि अहो नारद्धन्योऽसि विरक्तानां शिरोमणिः सदा श्रीकृष्णदासानाम् अग्रणीर्योगभास्करः त्रैचित्रं न मन्तव्यं भक्त्यर्थम् अनुवर्तिनी घटते कृष्णदासस्य भक्ते संसापना सदा ऋषिभिर्बहवो लोके पन्थान् प्रकटीकृताः श्रमसाध्यास्यते सर्वे प्रायस्वर्गफलप्रदाः दैकुण्ठसाधकपन्थाः स तु गोप्यो हि वर्तते तस्योपदेष्टा पुरुषः प्रायो भाग्येन लभ्यते सत्कर्म तव निर्दिष्टं व्योमवाचात् यत्पुरा तदुच्यते शृणु स्वाद्य शिरचित्तप्रसन्नधिः द्रव्यज्ञा तपोयज्ञा योगयज्ञा तथा परे स्वाध्याययज्ञानयज्ञाश्च ते तु कर्म विसूचकाः सत्कर्मसूचको नूनं ज्ञानयज्ञा स्मृतो बुधैः श्रीमद्भागवतालाप स तु गीतसुखादिभिः भक्तिर्ज्ञानविरागाणां तद्घोषेण बलं महत् व्रजिष्यति द्वयो कष्टं सुखं भक्तिर्भविष्यति प्रलयं हि गमिष्यन्ति श्रीमद्भागवतध्वनेः कलेर्दोषा इमे सर्वे सिंहशब्दाद्विका इव ज्ञानवैदाज्ञसंयुक्ता भक्तिप्रेमरसावः प्रतिगेहं प्रतिजनं ततः क्रीडां करिष्यति नारद्वाच वेदवेदान्तघोषैश्च गीतापाठैः प्रबोधितम् भक्तिज्ञानविरागाणां नोदति क्षान्त्रिकं यदा श्रीमद्भागवतालापात् तत्कथं बोधमिषति तत्कथासूतभेदार्थः श्लोके श्लोके पदे पदे छिन्दन्तु संशयं शयनं भवन्तो मोघदर्शनाः विलम्बो नात्र कर्तव्यशरणागतवत्सलाः कुमारा उचुः वेदोपनिषदां साराज्जाता भागवती कथा अत्युत्तमा ततो भाति पृथग्भूता फलाकृतिः आमूलाग्रं रसस्तिष्ठन्नास्तेन स्वाद्यते यथा स भूय सम्पृथक्भूत फले विश्वमनोहरः यथा दुग्धे स्थितं सर्पेण स्वादायोपकल्पते पृथग्भूतं हि तद्व्यं तद्गव्यं देवानां रसवर्धनम् इक्षूणामपि मध्यान्तं सर्करा व्यापतिष्ठते पृथग्भूता च कथा इदं भागवतं नाम पुराणं ब्रह्म भक्तिज्ञानविरागाणां स्थापनाय प्रकाशितम् वेदान्तवेदस्रास्ते गीताया अपिकर्तरे। कर्तरे परितापवती व्यासे मुह्यत्य ज्ञानसागरे तदा त्वया पुरा प्रोक्तं चतुश्लोकसमन्वितं तदीयशणा सद्यो निर्बाधो बादरायणः तत्त ते विस्मयकेन यतप्रश्नकरो भवान् श्रीमद्भागवतं शाभ्यं शोकदुःखविनाशनं नारद्वाच यद्दर्शनं च विनिहन्त्यशुभानि सद्य श्रेयस्तनोति भवदुःखवादिन्वार्जितानां निःशेषशेषगीतकथैकपानाः प्रेमप्रकाशकृतये शरणं गतोऽस्मि भाग्योदये न महुजन्मसमर्जितेन सत्सङ्गमं च लभते पुरसो यदा महि अज्ञानहेतुकृतमोहमदान्धकारनाशं विधाय हि तदोदयते विवेकः हिते श्रीपद्मपुराणे उत्तरखण्डे श्रीमद्भागवत् महात्म्ये कुमारनारदसंवादो नाम द्वितीयोऽध्यायः